इन्द्रः स नोजुवासखा अभिप्रेचित्वजोदधनाशुना चिनर्वदा इन्द्रोजेता हितम् धनम् महीलस्य प्रणीतयः पूर्वीरुतप्रशस्तयः नास्य क्षीरन्तभूतयाः ्रह्म बाघसे च तप्रच गायत स हि न प्रमाधर्मयी त्वमेकस्य वृत्रहन्न भिता द्वयोदसि कृते दृशे यथा वयम् न यजी द्वदिद्विषकृणा शुद्धशंसिनाः सुवीरासे ब्रह्माणम् ब्रह्मा वाहसङ्गीर्भिः सखायमृह्मियम् न दोहजे हुवे यस्य विश्वारा निस्तायोचिर्वसूनि वीरस्य व्रतनाशहाः विद्रुवाचिद्रिभोजनानाम् सदीपते बृहमाजानानत तमुद्वादत्यसोमपा इन्द्रराजानाम् पते अहूरो महिश्रभस्य वा तमुद्वाजः पुरासीधयो वा नूनम् हिते धने प्रव्यश्श्रुधीहवम् धीभिरर्वद्भिरर्वतो वाजाङ्गीन्द्रश्रवाय्यान् त्वयाजेष्महितम् धनम् अभून् वीरगिर्वणो महा इन्द्रधने हि ते भरे विदन्तसार्याः यात भूतिरवित्रान् रक्षुजवस्तमासति तदा नो हिन वीरसम् सरथेन रचितमास्माकेनाभियुग्मना ज्येषी जिष्णो हितम् धनम् ययेकयित्तमुष्टियकृष्टीनाम् वितर्षणिः प्रतिजज्ञेन्दृषक्रतोसी चाभिरूति शिवः सखाः स त्वन्न इन्द्रमणया धिष्वद्रङ्गभस्त्यो रक्षो हत्यायवद्रिवः सा सहीष्ठा अभिस्पृशाः पत्रम् राजीनाम् युजम् सखायङ्कीरिचोदनम् ब्रह्म वाहसमम् भुवे स गिरिश्वानि पार्थिवाङ्गे गोपसू निपत्यते गिर्वाणस्तमो अध्रीगुः स नो निगिर्भिराप्रेण कामम् वाजेभिरश्विभिः गोमद्भिर्गोपते ऋषते तद्भूदाय सुते स च गुरुभूताय सत्त्वाने स्थ्यगवेन शाकिने न घावसुर्नियामते दानम् वाजस्य गोमातः यत्सीमुपस्रवद्गिराः पुरस्य प्रयुभ्रजम् गोमन् पन्दस्युरागमात् शचीभिरपानोऽवदत् युमावुत्प्राशतक्रतोऽभिप्रणो नु भुर्गिराः इन्द्रवत्सन्न मातराः दूना सम् देन्दवगौरशिवीरगम्यते अश्वो अश्वायते भाव समन्धस्वाक्यन्धसो राधासेतन्वामहे न स्तोतारम् विदेकारः इमावृत्पासु तेषु ते नक्षम् ते गिवणो गिराः वत्सङ्गा वानजेनवाः पुरोत्तमम् पुरूणाम् स्तो त्रीणाम् विवाचि वाजेभर्वाजयताम् अस्माकमिन्द्रभूतु ते स्तोमो वाजिष्ठो अन्तः अस्मान् राजे महेहीनो धिबृहक्पानाम् वरिषष्ठे मूर्धन्यस्तात् पुरः कक्षो न गाङ्ग्यः यस्य भद्रा स रसिणी सद्यो गानायमुदे तत्सृणो विश्वे अर्यः सुरा गृणन्ति कारवाः भ्रुवम् सहस्रसादमम् सूर्यम् सहस्रसातमम् त्वामिद्धि हवामहे सातावालस्य गालवाः त्वारस्त्वाम् काष्ठा सर्वदा त्वन्नश्चित्रवज्रियामहस्तवालो अद्रिवः इन्द्रसङ्गीरसत्ता वा जनजिग्युषे यः सत्राहाविचर्षनिरिन्द्रम् तम् होमहे वयम् सहस्रमुष्कतुमीनृन्द सत्पते भवा समत्सो नो वृधे बाधचेतनान् वृषभेव बन्धुनाघृषौ मेघरीजीषम अस्माकम् बोध्यपितावाह धने तनोषोत्सु सूर्ये युम्भज्येष्ठम् नाभरङ्गोज्येष्ठम् पपूरिस्रवाः ये देवे चित्रवज्रास्तरोदसीयोगेषु प्रत्राः त्वामुणी सहम् राजन् देवेषु भूमहे विश्वासुनो विसुवा विद्धनवसौमित्रान्सुषहान् कृधि यदिन्द्रनाभूषेष्वायो नृम्नम् च घृष्टिषु यद्वा पञ्चक्षिदीनाम् जुम्नमाभरसत्रा वश्वान्यों स्या यद्वा दृक्षौ माघम् दृह्या वाजनेयपूरौ गच्छस्मभ्यम् दद्रीरीहिरम् नृढाह्ये मित्रान् पृच्छुर्वमे इन्द्रत्रिधातुः शरणम् त्रिवरोधम् स्वस्ति मत् छर्दिर्यच्छमघमद्भ्यश्च मह्यम् जयापया दिद्युमेभ्यः यदा मनसा शत्रूमातभुराभिप्रघ्नन्ती सृष्ट्या अतः स्मानो मघपन्विन्द्रगिर्वणस्तनोपान्तामो भव अतः स्मानो वृषे भवेन्द्रनायमा वाजुधि यदन्तरिक्षे अतनो नित्यवस्ति प्रमोद्धानः यत्र सूरासस्तम्भो वितम्बते प्रियाश्रमापि श्रीणा अथ स्मारच्छतन्वे एतने चिरचित्तम् रावण द्वेषाः यदि के महाधने असमने अध्वनिवृजिरे वसि सेया इव श्रवस्य सिन्धो निवप्रवणः सुजागतो यधिक्लो समनुष्वणी आ एव यो नवर्वृ दत्यामीषि गृहीता स्वादुष्किलायम् मधूमाम् उदायम् तीव्रः किलायम् रसवाम् उदायम् उदोम् वा अस्य केवान् समिन्द्रन्न कष्टनसरसाभयेषु अजम् स्वादुरिहमधिष्ठा शरस्येन्द्रो रत्न ते ममाद ौत्नासंभ्रागस्य विना वच वाच देह्यो होहन्न अयम् मेन वीत उवाचमयमा नीषामो सजीवजीगः अयम् षरुधीरोया जनम् कारे अयम् स यमलिमानम् पृथिव्यामश्वानम् दिवो हरेणोदयम् सः अजम्बीयूर्वम् तिसृषु प्रवत्सोमो राोर्वा अन्तरिक्षम् अजम्बी दच्चित्रदिशी कवन्नः शुक्रसत्मना मुरसा अयम् महान्महतास्कम्भने जामस्तभ्नाद्वृषभो मरुत्वान् ऋषप्तीतकलशे सोमत्रहासूरसमदेवसूनाम् मार्झन्दिने सवनामृषस्वस्थानो रजिमस्मासु धेहि इन्द्र प्रणः पुरजेदेव पश्च प्रणो नय प्रधानमस्या भवासु पारो हिवा रजो नो भवासुनीति हृतवामनीतिः स्वस्ति निःश्वाद इन्द्रश्च वीरस्य बाहूस्थेयामशरणा बृहन्ता वरिष्ठेन इन्द्रबन्धुवेदा वरिष्ठयो सदा वह्नश्रयो वा इषमापक्षीराम् वरिष्ठाम् मानस्तारीन्मघवन्रायो अर्यः इन्द्रमृमह्यम् जीवातोमिच्छोदयधिमय सोमधारा यत्किञ्चाहम् प्रायुर्विदम् वदामि तज्जूरस्व कृधिमा देवमन्दम् प्रातः रवीन्द्रमलिता रवीन्द्रम् भवे भवे सुभवं सुरवीन्द्रम् वया निषक्रम् पूर्वभूतमिन्द्रम् स्वस्ति नो भगवा धात्विन्द्राः इन्द्रः सुप्रामा स्वो विश्वमृको भवतु विश्ववेदाः बाधतान्त्रेषु अभयम् कृणोतु सुवीर्यस्य वद यस्याम स्य वयम् श्रुमतौ यज्ञि यस्यापि भद्रेदौ मनसे स्याम इन्द्रो अस्मे आयाचिद्वैगः स न तर्युजोतु अभत्ये इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो गुरो न राधस्वनागुरोण्यपोगा वज्रन्युवशेषन्दूरि तदीयम् सभक्कप्रीणाक्रोयजाते यदुर्ग्रमिन् भगवान् विश्वा वेद्य पायाविव प्राणन्यमन्यम् क्रोधि पूर्वमपरं सची शृङ्गे वीरमुग्रमुग्रन्थमायन्नमन्य समान द्विभयस्य राजाते विषयङ्गा मनुष्याय परा पूर्वे सख्यावे नू राजापदेऽभिरेति अनानुभूतिरमतोन्वानः न्द्रः शरदस्तर्दरीति रूपम् रूपम् प्रतीरूपो बभूपदनस्य रूपम् राजिलक्षणाय इन्द्रो माजाभिः पुरुपीयते युगिताह्यस्या नयः शरादश जानो हरितारसे भोरितष्टे गदाजि ओ विश्वाहार्जुनः पक्ष आसद उदासीनेषु सूर्यषु अगम्योतिक्षयत्रमागन्मदेवी सती भूमिरम्भूरणाभूत् बृहस्पते प्रचीकृसा गविष्ठा भिच्छासते च रित्रयम् गान्था िवे जीवे सदृशीरण्यमर्थम् कृष्णासे धसज्ञानोजा अयम् राजा वृषभो मस्त्रयम् दोषव्राजे भर्जिनम् संभारम् च प्रस्तोकयन्द्रयिन्द्रदशकोषयीर्दशभाजिनोधात् दिवो दासा दुदिवस्य राजः स्वाम् फलम् वसुप्रत्यग्रहीष्म दशा स्वाम् दशकोशान् दशवस्त्राधीभोजना दशो हिरण्यपिण्डान् दिवो दासा दशा निषम् दशरथान् दसा वृष्टिमतः शरङ्गा अथर्वभ्यः अश्वतः पायवेदात् मयिराजो विश्वजन्यधानाम् भरद्वारा सा जयो अभ्यायष्ट वनस्पते गोधिभूयास्मत्सर्गा प्रतरणः सुवीरा गोधिः सन्नद्धोऽसि वीरज स्वास्थाता ते जयतु चेत्त्वारि दिवस्पृथिव्याः पर्योय उद्भृतम् वनस्पतिभ्यः पर्यावृतम् र अपो यज्वानः परिगोभिरावृतमिन्द्रस्य वज्रम् भविषारथम् यज इन्द्रस्य वज्रो मरुतामनीकम् वितस्य गर्भवरुणस्य नाभिः श्रीमान्नो नो देव भाया व्याघ्रे भाय उपश्वासन पृथिवीमुनद्याम् पूर्वत्राजे मनुताम् मिष्टिरम् अपसे सदम् रुभे सजुविन्द्रेण देवैर्दूरार्दबीयो अप्रसेधशत्रून् आक्रम्बरबमोजो नाधानिष्टहि भाधमानः अपप्रोदुन्दुभेदिश्वाः जितलिङ्गस्य मुष्टिराशिबीरजस्व आमोराज प्रत्यावर्तयेमा केतुमग्दुम् दुभिर्वाः भवती समस्याश्च नरोस्माकमिन्द्ररचिनो मालयन्तु भद्रन्न अपि वातयवनाः ओ यज्ञानो अग्नये गिरागीराजरक्षसे प्रमृतम् जातवे शरम् प्रियम् मित्रम् नरम् षडम् ओजोरपादम् स हि राजमस्म निर्दासे महव्यदादये ृता ह्यज्ञे अजलो महान्विधास्य अजस्रेण सुजिदासु सुधीरिभिः सुरिः ममो देवान्यजसि यक्ष्या निरतवक्रत्वंसना अर्वाचस्थी मृगणह्यज्ञे राजेरा स्वमालोदवंस यमापो अद्र योमनागर्भ मृतस्य विप्रति साजो मासि रोजाते मृधि प्रथिविजाधिनाय प्रौभानुमारो दासी गृहे धूमे न धावते दिवि गृहस्तमोदूर्या स्वाश्यावा ृहद्धीरज्ञे अर्चिभिस्वरेण देवसू भरद्वाज समिधानो यदिष्टदेवम् न शुक्रजीरिः ज्युमत्पा विश्वासाङ्ग्ल्यामसि त्वमग्ने माषीयाम् शतम्भिर्यविष्टपाह्यमेद्धारम् शतम् जना स्तोत्रभ्यो च नश्चिप्रभूद्यावसोदाधारम् श्रियो अस्य लायस्त्वमग्ने रचेदासिविदागाधम् सुते नाः मर्षीतो वन्दनायम् पत्रभेदमदधैरप्रायत्वभिः अग्नेहे नाम्सि्याययो धिरो देवानिःपरांसि च आशरजायस्य भर्दृभामवनसावमनवस्फुरा या श्रद्धाय मारुताय स्वभावमे श्रवो मृत्युदृक्षर जाले के मरुताम् तुराणाञ्जा सुम्मेरे जयावली भरद्वाजाबुक्षतद्विधा धेलिम् च विश्वदोह समिषम् च विश्वभोजतम् तम् भयिम् रन्न सुम्भरोणमिव मालिनम् हर्यमनन्नमङ्गम् सुरप्रभोजम् वृक्षम् न स्तोष आदिशे वेदम् दर्ध्वनमारुदम् तु विश्वन्यर्वाणम् ऊदनम् संयथा सदा तम् सरस्राकारीरश्चिभ्या आदिर्गूढावसूदत् सुवेदा नोऽवसूदरत् आ ोषण् भद्रवशंसी षण् ते अधिकर्म आधे अधार्यो हराहयः माता गम्भीरमुद्रीर्लो वनस्पतिमसेर्विहिनी न सह मोतसूरो अहजेवाचनग्रीवादृध देवेः दृते मृगमस्तु सङ्ख्यम् अच्छिद्रस्य द धन्वतः सुपूर्णस्य द धन्वता, धन्वता। परोहिमर्त्यैरसी दे समो देवैरुतश्रिया अभिक्षः पूर्णम् मृदा नाशु न त्वमवा नूनम् यथा पुरा वामी वामस्य धूतयः प्रणीन्दयस्तु सुहृता ेवस्य वामरुतो मर्त्यस्य वेजानस्य प्रयजवः सद्यश्चिद्यस्य चकृतिः परिद्याम् देवोनैति सूर्जाः प्रेरम् सपोदधिरे नाम यिज्ञियम् मरुतो वृत्रहंसभोज्येष्ठम् वृत्रहंसवा सकृद्धौराजायत सकृद्भूमि रजायत कृष्ण्या दुग्धम् सकृत्व यस्त्वधन्यो नामूजायते सूक्ताम् ते तृणान्यग्रावण्ये बोधतेऽपि वा यस्तृणीरध्ययनम् तदधीतम् स्तृणाी भवते भवी कूपरलाकालान् समुद्रम् रक्ष स्वाहा व्यसीभर्गेभ्य वरुणा सुन्द्रयन्ताः राजा मन्तुरस्रुवन्तु सत्रासो वरुणो मित्रो अग्निः विसो विशैद्य मध्वरेष्वृत्तक्रतुलमरञ्जुमत्योः दिवशिञ्जमग्निम् यज्ञस्य केतुनारुणम् यदध्यै अरुणस्य दुहितराभिे स्त्रिभिरन्यापि पिशे शूरोः अन्या निशस्तुराः विचरन्ती भगे मन्नः श्रुतम् प्रवायुमच्चारुगतिव लीराविरद्राम् विश्वमारम् रथप्राम् दुर्यामा पत्यामानः कविः कविवीरक्षसि प्रयज्यो समेव पुच्छिनोर्योरसो विरुक्मान्मनसायुजानः येन न नानासत् ध्यै मत्तिर्याधस्तनायत्मने च अर्जन्यमादावृणभादृशेव्याः पुरीराणि जन्मदमप्यानि सर्जश्रुतग्रमयोजस्य दीर्भिर्जगदस्थादर्जगदागृणध्वम् पारीरी कन्या चत्रायः सरस्वती वीरपत्नीधिनम् धात् गुणाधिरच्छिद्रम् सरणम् सजोषा दुराधर्णम् धर्मजम् सत् पशस्पतः पदीपतिम् वचस्यार्कम् स नो राजश्चन्द्राग्राधिनम् दिवम् शेषशाम् यशसम् रूपाणिम् सुगमस्ति मृग्मम् होतायक्षद्यम् वस्त्यानामग्निष्टालम् सुगमम् विभावा भूगालस्य वितरम् उत्रं दिवा बद्धया रुद्रमत्रौ मृगन्त कविनेः शिलासाः आयुबालः कवयो यज्ञिराजोमनुजो गन्तस्याम् अचित्रम् युद्धिन्द्रा च कृतम् ता इच्छालक्षम् तोमस्वद् प्रभीराय प्रतपसेतुराजायशेव पशुरक्षिगस्तम् सविस्मि सति तण्स्रुतशस्त्रिभिर्मनाकम् वदनः स निपा योजामेवार्थिवानिस्तृश्रिद्विष्टर्म न देवाधिताय तस्य ते सर्वन् उपदद्यमाले राजा तन्नो यद्बुद्ध्यो अद्भिरकैस्तत्पर्वतस्तत्सविदाचनो धात् तदोराधिभिरभिराचिराचो भगः पुरम् धर्जन्व तु प्रराजे यम् रथ्यम् दर्शनि प्रा पूर्वीयम् मार्गस्य गोपा क्षयम् दामेन स्मृशो देवीरविचक्रमा भविषादे वीरभ्या अस्महा उवेो देवी मदीतिन्नमो माभिम् मित्रमग्निम् अभिक्षरामर्याणम् सुदेवम् प्रातॄम् देवान् सिवालम्बरम् च सुज्योतिषः सूर्यदक्षभिस्त्वेषु महोदीः देवान् ददावस्सत्याः सर्वम् दोजया अग्निजिह्वाः उद्या वा पृथिवी क्षत्रमुद्रोलीसरणम् सोढुम्वे नस्कारोपरि भोजसा नोऽस्मेच्छयानेहः आनो रुद्रस्य सूनवोनन्दामत्याहूदासोपसमो सृष्टा यदी मध्ये महदिवाधिदासो बाधे मरुतो अन्वामदेवादने देवीषु शक्तिपुरुषाभ्यर्थयज्वा श्रुत्वा पवम् मरुतोऽध्याया च भूमारेयम् देवाध्वामिप्रवृत्ते ओ, ओ। अभित्यम् वीरम् निर्वणसमस्तेन्द्रम् ब्रह्मण जरिधर्मवेन श्रवजद्धृणानः ओमा न मा कोमानुषेदमृत्तम् धात लोकाजतनायायसंयोः यूजम् निष्ठाभिरजो मातृत मा विश्वस्य स्था दुर्जगतो जीः ेवस्य विदायमानो हिरण्यो निर्जसो जगम्यात् यो द्राभा उषगोण प्रतीकम् योर्नदेसुषेवार्याणि उदस्तम् दूर्णो दहसो नो अद्या देवा तस्मिन्नेव वृत्त्याः ्यामाम् एषदविद्रादौ तमस्यामग्ने वा सा सुराः पुरत्यामेव सत्याधीतर्युवमङ्गविप्रा पत्रिन्नमहस्तमासोमुक्तम् पूर्वादम्बराजुलितादभीये एनो राजोद्युवतो वाजनवतो दा गो गोजगणवतः पुरुक्षो ददस्यन्तो दिव्याः पार्थीवागो गोजाताव्या मृणता च देवा एनो सरस्वती रजो रामे लक्ष्मन्तो लष्णम् जो झाता पद्यन्यापाता दिव्यधारिणम् उदस्य देवस्य पिता भगो नोपान्नपादवृदानुपप्रीः लक्षा देवेभिर्जनीभिः सजो राज्योर्देवेभिः पृथिवी समुद्रैः पुरुणो हिर्बुद्ध्यशृणा त्वजयगापामुद्रा विश्वे देवारुताहुवाना स्तुता मन्द्राः कविशस्त्रान्तु एवानपातो मम मतस्य धीर्भरद्वाजा अभ्यर्थ्यन्त्यर्कैः ो दृष्टा विश्वे सुदासो भूताय जत्राः पुरत्यश्च क्षर्म हि मित्रयोरा ये प्रियम् वरुणयोरदधम् पुत्रस्य शुचैदर्शदानीम् रुक्मो न विवीताव्य ीणि विदशान्येषाम् देवानाम् जन्म सर्वराजवित्राः विनिवर्ते ऋजना तपश्यन्नभिचष्टे सूरो अर्ययेवान् स्तुतपूगो महृतस्य गोपालदीतिम् मित्रम् वरुणम् सुजातान् अर्यमनम्भगमदब्धी दीनच्छा भोजे स धन्यः पावकान् त्रिशदश्रप्रतीन्द्रदधान्मोराज्ञूनः सुक्षत्रान् क्षयाजोषियोीसिन्दुभोज पृथ्वीमादरध्रुरग्नेभ्रादर्वो मृगदा विश्वादित्याजिते सयोगा अस्मभ्यम् धर्म बहुलम् वियम्ब मा नोगाय लख्ये समस्माधायते शरीरधाराय यजत्रा योजम् यक्षारथ्यो नस्तनूनाम् योजम् रक्षः सवचासो बभूव मा भयेनो अन्यकृतम् भृजे ममादत्तवस भोज् च यध्वे ईश्वरशैक्षयाथ विश्वदेवा स्वयम् रिपुस्तन्वम् निर्दीष्ट न मृदुक्रम् न मीवासे नमो लाधारपृथिवीयुगलभ्याम् नमो देवेभ्यो नम ईशेषाम् कृतम् चिरे नो नमसा वीवासे कृतस्य भोरक्षः पूतदक्षानुद्रस्य पुरश्चर अदब्धान् नमोऽभिर्वृचक्षसो मेन्विश्वान्वान मे मोजत्रा ते हि श्रेष्ठभस्तभूनस्थिरो विश्वानितानयम् हि सुक्षत्रा सोऽवरो नो मित्रो अग्निर्वृदधीतयो भग्मराज सत्याः पृथिवीक्षामा बद्धम् भूषा भगवति जिह्मनाः सुशर्मा नस्व सस्सु नीचारम् पुनः सुत्रा सस्सु गोपाः नूत्मानम् दिव्यम् नंसीदेवा भारद्वाजस्व मदीया दिहोता आसामेभिर्यया मानो निवेधैर्यर्देवानाम् जगन् वसु विन्द अपत्यम् ऋजिरम् ऋं सेलवद्मे दुराध्यम्पदे कृधीसुयाम् रावाल सोमनोधिकम् सहत्व न वा वसु जीन्या अत्रिणम् पणीन्द्रगोहिरः यूयम् धिष्ठा सुीन्द्रज्येष्ठा अभिद्यावः कर्त्रा नो अर्धन्ना सुरम् गोपा अमा अभिबन्था मगन्न हि स्वस्ति गामानेहसम् येन विश्वाः परिद्विषो वृणक्ति वीन्द्रदेवसु न लद्दिवाल पृथिव्यालो मन्येन यज्ञेन नोत समीभिराभिः पूज्यम् दुरम् सुभा अपर्वता सोमीयरामधियाजस्य यष्टा अजीयायो मार्गो मन्या ते नो ब्रह्म वाय क्रियमाणन्नित्सात् ोदस्मै विधिनानि सन्तु ब्रह्म द्विषामभितम् सोररुजोः किमङ्गत्वा ब्रह्मणः सोम गोपान् किमङ्गत्वाहुरभिदस्तिपान्ना किमङ्गलः पश्यसि अवन्तु मा मुरजो जायमाना अवन्तु मा सिन्धभक्तिलमानाः अवन्तु मा पर्व दासो ध्रुवासोऽवन्तु मा विलो देवभूतौ विश्वदानीम् सुमनसस्य मपस्ये मनुसूर्यमुच्चरन्तम् तथा करत्वसूपजल्पसूनाम् देवा राजा इन्द्रोरेष्ठमवसागामिष्ठः सरस्वती सिन्धुभित्पिन्बमाना पर्जन्यो नवोषाधिधर्मयोः अग्निः सुतन्त्रः सुभवः पितेव विश्वे देवासागरसु नुदा जिवम्भवम् यो मो देवाहृतश्रूहव्येन प्रतिभूषति तम् विश्व उपागच्छस उपानसो नो गिरः शर्मदस्ये सुरीकाभवन्धुनः विश्वे देवारुतारुभिर्भवनश्रुवाः दृढन्तान्यजन्मयाः रुद्रणस्तुष्क्रेमा निर्यमा इमा हव्याजोषन्तनः इमन्नो अग्ने अध्वरम् होतर्वजुनसो यै व्यञ्जनम् इश्रे देवा श्रुमते मन्द्रवम् मेदे अन्तरिक्षेय उपद्यभिष्ट ये अग्निजिह्वा भुतभाजत्रा आरभ्यस्मिन् हरिहि मातयध्वम् इश्वे देवाम धृन्वन्धुयज्ञा गुहे रोदी अपान्नपाचन्न मा भोपचाम्सि परिचक्षादिवोचम् शून्ये श्रीधो अन्ता मामदेन एके महिन अयि मायादिव जग्दिरे अपसधस्तेः ते अस्मभ्यमिषजे विश्रमाजोक्षपगुश्राव सन्तु देवाः अग्नीः भर्जन्याववदम् धियम् मे श्रृङ्घले सुभा सुष्टुतिम्नाः इला लाभ्य जनजद्गर्भ मन्यः प्रजापतीशा दत्तमस्मे समिधाने अग्नौ रूपेण महानमसा विवासे अस्मिन्नो अद्य विदधे यत्रासे देवा हविषीमादय धाम्